अयोध्याकाण्डं स्वर्गं सिक्स् सुप्तं रामं समालोक्य गुहसोऽश्रुपरिप्लुतः लक्ष्मणं प्राहविनयाद्भ्रातः पश्यसि राघवं शयानं कुशपत्रौख संस्तरे सीतया सह यच्छेदे स्वर्णपर्यङ्गे स्वास्तीर्णे भवनोत्तमे कैकेयी रामदुःखस्य कारणं विधिना कृता मन्थरा बुद्धिमास्ताय कैकेयी पापमाचरत् तच्छ्रुत्वा लक्ष्मणप्राह सखे शृणुवचो मम खक्कस्य हे कश्च हेदुःसुखस्य च स्वपूर्वार्जितकर्मैव कारणं सुखदुःखयोः सुखस्य दुःखस्य न कोऽपि दादा परो ददातीति कुबुद्धिरेषा अहं करोमीति वृथाभिमानस्वकर्म सूत्रग्रथितो हि लोकः सुहृन्मित्रायुदासीन द्वेष्यमध्यस्तबान्धवाः स्वयमेवाचरन् कर्म तथा तत्र विभाव्यते सुखं वा यदि वा दुःखं स्वकर्म वशगो नरः यद्यथा गदं तत्तत् भुक्त्वा स्वस्तमना भवेत् नमे भोगागमे वाञ्छा न मे भोग विवर्जने आगच्छत्वध मा गच्छोग वशगो भवेद स्वस्मिन् देशे च काले च यस्माद्वा येन केन वा कृतं शुभाशुभं कर्म भोज्यं तत्तत्र नान्यथा अलं हर्षविषदाभ्यां शुभाशुभफलोदये विधात्राविहितं यद्य तदलङ्ख्यं सुरासुरैः सर्वदा सुखदुःखाभ्यां नरः प्रत्यवरुध्यते शरीरं पुण्यपापाभ्यामुत्पन्नम् सुखदुःखवद सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखं द्वय मे दग्धिजन्तूनामलङ्घ्यं दिनरात्रिवद सुखमध्ये स्दं दुःखं दुःखमध्ये स्थितं सुखं द्वयमन्योन्यसंयुक्तं प्रोच्यते जलपङ्कवत् तस्माद्धैर्येण विद्वांस इष्टानिष्टोपपत्तिषु न हृष्यन्ति न मुह्यन्ति समं भावनाद भावनात् गुहलक्ष्मणयोरेवं भाषतोर्विमलं नभः बभूव रामः सलिलम् पृष्ट्वा प्रातः समाहितः उवाच शीघ्रं सुदृढं नावमानयमे मे सखे श्रुत्वा रामस्य वचनं निषादाधिपतिर्गुहः स्वयमेव दृढं नावमानिनाय सुलक्षणां स्वामिन्नारुह्यदां नौकाम् सीतया लक्ष्मणेन च वाकये ज्ञादिभिः सार्धमहमेव समाहितः तथेति राघवसीतामारोप्य शुभलक्षणां गुहस्य हस्तावालम्ब्य स्वयं चारोहदच्युतः आयुधादीन् समारोप्य लक्ष्मणोऽप्यारुरोह च गुहस्तान्वाहयामास ज्ञादिभिः सहितस्वयं गङ्गामध्ये गदां गङ्गां प्रार्थयामास जानकी देवि गङ्गे नमस्तुभ्यं निवृत्ता वनवासतः रामेण सहिताहं त्वां पूजये सुरमान् सोपहारैश्च नाना बलिभिरादृता इत्युक्त्वा परकुलं तौ शनैरुत्तिर्यजग्मधुः गुहोऽपि राघवं प्राह गमिष्यामि त्वया सह अनुज्ञां देहि राजेन्द्र नो चेत्प्राणान् त्यजाम्यहं श्रुत्वा नैषादिवचनं श्रीरामस्तमधा ब्रवीद चतुर्दशसमास्थित्वा दण्डके पुनरप्यहम् आयास्याम्युदितं सत्यं न सत्यं इत्युक्त्वा लिङ्ग्य तं समाश्वास्य पुनः पुनः निवर्तयामास गुहं सोऽपि कृच्छ्रायौ गृहं तत्र मेध्यं मृगं हत्वा पक्त्वा कुत्वा च देत्रयः भुक्त्वा वृक्षतले सुप्त्वा सुखमासद ं निशां ततो रामस्तु वैदेह्या लक्ष्मणेन समन्वितः भरद्वाजाश्रमपदं गत्वा बहिरुपस्थितः तत्रैकं वडुकं दृष्ट्वा रामः प्राह च हे वटो रामो दाशरधिसीदा लक्ष्मणाभ्यां समन्वितः दा, आस्ते बहिर्वनस्येदिह्यच्यदां मुनिसन्निधौ तच्छ्रुत्वा सहसा पादयो पादयोः पतितो मुनेः स्वामिन् रामसमागत्य वनाद्बहिरवस्थितः सभार्यसनुजश्रीमानाः मां देवसन्निभः भरद्वाजाय मुनये ज्ञापयस्व यथोचितं तच्छ्रुत्वा सखसोद्धाय भरद्वाजो मुनीश्वरः गृहीत्वार्घ्यं च पद्यं च राम सामीप्यमाययौ दृष्ट्वा रामं यथा न्यायं पूजयित्वा स लक्ष्मणम् आह मे पर्णशालाम्भो रामराजीवलोचन आगच्छ पादरजसा पुनीः रघुनन्दन क्युक्वोडजमानीय सीतया सह राघवौ भक्र्या पुनः पूजयित्वा चकारादिथ्यमुत्तमम् अद्याहं तपःस परं तव सङ्गमाद ज्ञातं राम तवो दन्तं बोधं चागामिकं च यद जानामि परात्मानं मायया कार्यमानुषम् यदर्थमवतीर्णोऽसि प्रार्थितो ब्रह्मणा पुरा यदर्थं वनवासस्ते यत्करिष्यसि वै पुरः जानामि ज्ञानदृष्ट्याहं त्वदुपासनाद इतः परं त्वां किं वक्ष्ये कृतार्थोऽहम् प्रकृत्तमां यस्त्वाम पश्यामि काकुत्स्थं पुरुषं प्रकृतेः परं रामस्तमभिवाद्याः अनुग्राख्यास्त्वया अनुग्राह्यास्त्वया ब्रह्मन्वयं क्षत्रियबान्धवाः इति सम्भाष्य तेऽन्योन्यमुषित्वा मुनिसन्निधौ प्रादरुद्धाय यमुनामुत्तीर्य मुनिवारकैः कृदाप्लवेन मुनिना दृष्टमार्गेण राघवः प्रययौ चित्रकूडाद्रिं वाल्मीकेर्यत्र चाश्रमः गत्वा रामोद वाल्मीकेराश्रमं ऋषिसङ्कुलं नानामृगद्विजाकीर्णं नित्यपुष्पफलाकुलं तत्र दृष्ट्वा समासीनं वाल्मीकिं मुनिसत्तमं ननाम शिरसा रामो लक्ष्मणेन च सीदया वाल्मीकिर्लोकसुन्दरम् जानकीलक्ष्मणोपेदं जडामुकुटमण्डितं कन्दर्प सदृशाकारं कमनीयाम्बुजेक्षणं दृष्ट्वैव सहसोत्तस्थौ विस्मयानिमिषेक्षणः आलिङ्ग्य परमानन्दं रामं हर्षाश्रुलोचनः पूजयित्वा जगत्पूज्यं भक्त्यार्ख्यादिभिराधृतः फलमूलैः सं मधुरैर्भोजयित्वा च लालितः राघवः प्राञ्चलिः वाक्मी किं विनयान्वितः पितुराज्ञां पुरस्कृत्य दण्डकानागता गदावयं भवन्तो यदि जानन्ति किं वक्ष्यामोत्र कारणं यत्र मे सुखवासाय भवेत्स्थानं वदस्व सीतया सहितकालं किञ्चित् तत्र नयाम्यहं युत्युक्तो राघवेणासौ मुनिःसस्मितमब्रवीद त्वमेव सर्वलोकानां निवासस्थानमुत्तमं तवापि सर्वभूतानि निवाससदनानि एवं साधारणं स्थानमुक्तं ते रघुनन्दन सीतया सहितस्येदि विशेषं पृच्छतस्तव तद्वक्ष्यामि रघुश्रेष्ठ यत्ते नियतमन्दिरं छान्दानां समदृष्टीनामद्वेष्टॄणां च जन्तुषु मेव भजतां नित्यं हृदयं तेधि मन्दिरं धर्माधर्मान् परित्यज्य त्वामेव भजतो निशं सीतया सहते राम तस्य हृत्सुखमन्दिरम् त्वन्मन्त्रजापगोयस्तु त्वामेव शरणं गतः निर्द्वन्द्वो निःस्पृहस्तस्य हृदयं ते सुमन्दिरं निरहङ्कारिणन्ता ये रागद्वेषवर्जिताः समलोष्ठास्मकनकास्तेषां ते हृदयं गृहं त्वयि दत्तमनो बुद्धिर्यः त्वयि सन्ध्यक्तकर्मा यस्तन्मनस्ते शुभं गृहं यो नद्वेष्ट्य प्रियं प्राप्य प्रियं प्राप्य न हृष्यति सर्वं मायेदि निश्चित्य त्वां भजे तन्मनो गृहम् षड्भावादिविकाराण्यो देहे पश्यदिनात्मनि क्षुतृत्सुखं भयं दुःखं प्राण बुद्ध्योर्निरीक्षते संसारधर्मैर्निर्मुक्तस्तस्य ते मानसं गृहं पश्यन्ति ये सर्वगुहाश्रयस्थं त्वां चित् घनं सत्यमनन्तमेकम् अलेपकं सर्वगतं वरेण्यं तेषां हृदब्जे सहसीतया वस निरन्तराभ्यास दृढीकृतात्मनां त्वत्पादसेवा परिनिष्ठितानां त्वन्नामकीर्त्या हतकमाण सीदा समेत गृहम्जे जाम महिमर्ण्यनवा कथम यहाद राम ब्रह्मिववान्हंपुरा कित वर्धि जन्ममात्रद्विचत्वं मे शूद्राचाररतः सदा शूद्रायां बहवः पुत्रा उत्पन्ना मे जिदात्मनः तदश्चोरैश्च सङ्गम्य चौरोहमभवं पुरा धनुर्बाणधरो नित्यं जीवानामन्धकोपमः मुनय सप्तृष्टा महदा मैया ज्वलनार्क प्रभा तानं लोभेन तर्वरछदा ग्रहीदु कामस्टे तिष्ट चाब्रव दृष्ट्वा मां मुनयो पृच्छन् किमायासि द्विजाधमा अहं तान्ब्रवं किञ्चिदातुं मुनिसत्तमाः पुत्रदारादय सन्ति बहवो मे बुभुक्षिताः तेषां संरक्षणार्थाय चरामि गिरिकानने तदो मामोचुरव्यग्राः पृच्छ गत्वा कुडुम्बकं यो यो प्रतिदिनं क्रियते पापसञ्चयः यूयं तत्भागिनः किं वा नेदि वेदि पृथक् पृथक् वयं स्थास्यामहे तावदागमिष्यसि निश्चयः तथेत्युक्त्वा गृहं गत्वा मुनिभिर्यदुदीरिदम् अपृच्छं पुत्रधारादीन्स्तैरुक्तोऽहं रघुत्तमपा तवैव तत्सर्वं वयं तु तच्छ्रुत्वा जातनिर्वेदो विचार्य पुनरागमं मुनयो यत्र तिष्ठन्ति करुणापूर्णमानसाः मुनीनां दर्शनादेव शुद्धान्धकरणो भवं धनुरादीन् परित्यज्य दण्डवत्पतितोऽस्म्यहं रक्षध्वं माम् मुनिश्रेष्ठा इत्याग्रे दृष्ट्वा गरयानव्रे पतिद्वाचुर्मुन सहा उठोत्तिष्टभद्रम ते सफल सत्सम उपदेशयामहतुभ्यं किंचितेन परस्परं परलोच्य दुर्वृत्तोऽयं द्विजाधमः उपेक्ष्य एव सद्वृत्तैस्तथापि शरणं गतः रक्षणीयः प्रयत्नेन मोक्षमार्गोपदेशतः इत्युक्त्वा रामते नामव्यस्ताक्षरपूर्वकं एकाग्रमनस्सात्रैव मरेति जप सर्वथा आगच्छामः पुनर्यावत्तावदुक्तं सदा जप इत्युक्त्वा प्रययुः सर्वे मुनयो दिव्यदर्शनाः अहं यथोपदिष्टं तैस्तथा करवमञ्जसा जपन्नेकाग्रमनसा बाह्यं विस्मृतवानहं एवं बहु काले गदे निश्चलरूपिणः सर्वसङ्गविहीनस्य वल्मीको भून्मोपरि ततो युगसहस्रान्ते ऋषय्यः पुनरागमन् मामूचुर्निष्क्रमस्वेदि तच्छ्रुत्वा तोर्णमुद्धितः वल्मीकान्निर्गतश्चाहं निहारादिवभास्करः मामप्याहुर्मुनिगणा वाल्मीकिस्त्वं मुनीश्वर वल्मीकात्सम्भवो यस्माद्वितीयं जन्मते भवद इत्युक्त्वा ते ययुर्दिव्यगतिं रघुकुलोत्तम अहं ते रामनामश्च प्रभावादीदृशो भवम् अद्य साक्षात् प्रपश्यामि ससीदं लक्ष्मणेन च रामं राजीवपत्राक्षं त्वां मुक्तो नात्र संशयः आग्च राम भद्रम ते स्थल वै समन्वितः हम परिवृतो गत्वा मध्ये पर्वद गो तलां सुविस्तीर्ण कारयामास वासभूः प्राक्पश्चिमं दक्षिणो दक्षोभनं मन्दिरद्वयं जानक्यासहितो रामो लक्ष्मणेन समन्वितः तत्र ते देव भवनोत्तमे वाल्मीकिना तत्र सुपूजितोऽयं रामः सशीतः सह लक्ष्मणेन देवैर्मुनीन्द्रैः सहितो मुदास्ते स्वर्गे यथा देवपदि सच्या इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे अयोध्याकाण्डे षष्ठः सर्गः ओ oh.